श्री सप्तशती श्रीसप्तशतीपारायणसङ्कल्पः शुक्लाम् वरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये महोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् अस्माकं सहकुटुम्बानाम् क्षेमस्थैर्य धैर्यवीर्य विजय आरोग्य ऐश्वर्याणाम् अभिवृद्ध्यर्थम् धर्मार्थकाम चतुर्विध फलपुरुषार्थसिद्ध्यर्थम् श्रीमहाकाली महालक्ष्मी महासरस्वतीप्रसादसिद्ध्यर्थम् श्रीदुर्गासप्तशती पारायणं करिष्ये